चक्रतुर्नामधेयञ्च तस्य बालस्य तावुभौ दम्पती वसुषेणेति दिक्षु सर्वासु विश्रुतं संवर्धमानो बलवान् सर्वास्त्रेषु उत्तमोऽभवत् वेदाङ्गानि च सर्वाणि जजापचयतां वरः यस्मिन् काले जपन्नास्ते धीमान सत्यपराक्रमः नादेयम् ब्राह्मणेष्वासीत्तस्मिन् काले महात्मनः तमिन्द्रो ब्राह्मणो भूत्वा पुत्रार्थे भूतभावनः ययाचे कुण्डले वीरं कवचं च सहाङ्गजम् उत्कृत्य कर्णो ह्यददात्कवचं तथा शक्तिं शक्रो ददौ तस्मै विस्मितश्चेदमब्रवीत् देवासुरमनुष्याणां गन्धर्वो रगरक्षसां पुरा नाम च तस्यासीद्वसुषेण इति ततो वैकर्तनः कर्णः कर्मणा तेन आमुक्तकवचो वीरो यस्तु जज्ञे महायशाः स कर्ण इति विख्यातः पृथायाः प्रथमः सुतः सूतकुले वीरो ववृधे राजसत्तमा कर्णम् नरवरश्रेष्ठम् सर्वशस्त्रभृतम् दुर्योधनस्य सचिवम् मित्रम् शत्रुविनाशनम् दिवाकरस्य तं विद्धि यस्तु नारायणो नाम देवदेवः सनातनः तस्यां शोमानुषेष्वासीद्वासुदेवः प्रतापवान् शेषस्यांशश्च नागस्य बलदेवो महाबलः सनत्कुमारम् प्रद्युम्नम् विद्धि राजन्महौजसम् एवमन्ये मनुष्येन्द्राभहवंशादिवौकसाम् जज्ञिरेवसुदेवस्य कुले कुलविवर्धनाः गणस्त्वप्सरसां यो वै मया राजन् प्रकीर्तितः तस्य भागः क्षितौ षोडशदेवीनाम् सहस्राणि न राधिपा बभूपुर्मानुषे लोके वासुदेवपरिग्रहः श्रियस्तु भागः सञ्जज्ञे रत्यर्थम् पृथिवीतले भीष्मकस्य कुले साध्वीरुक्मिणी नामनामतः द्रौपदीत्वथसञ्जज्ञे शचीभागादनिन्दिता द्रुपदस्य कुले कन्या वेदिमध्यादनिन्दिता नातिह्रस्वा न महती नीलोत्पलसुगन्धिनि पद्मायताक्षी शुश्रोणी स्वसिताञ्चितमूर्धजा सर्वलक्षणसम्पूर्णा वैदूर्यमणिसन्निभ पञ्चानाम् पुरुषेन्द्राणाम् चित्तप्रमथनीरहः सिद्धिर्धृतिश्च ये देव्यौ पञ्चानाम् मातरौतु ते कुन्तीमाद्री च जज्ञाते मतिस्तु सुबलात्मजा इति देवासुराणान्ते गन्धर्वाप्सरसाम् तथा ब्राह्मण क्षत्रिया वह्या मा ते पीकर्ति धन्य यशुष्यं विजया वहमशावत अंशावतुवा देवंधरक्षसा प्रभवाप्यय विज नृछ्रेष्वीद्रीमन महाभार आदिपर्वि संभवपर्णि अंशाव सतष्ट